शरीरम् गच्छति सोमगुं रसवरुणयेन वरुणपाशेन गृह्णाति सरस्वतीम् वा गाविष्णो आत्मा यस्य जो गामयति योज्यो गामयामि स्याद्यो वा कामगेत सर्वमायमिलितस्मागेतामित्यम् सर्ववेदान्येन मष्टाकपालकम् सौम्यम् वैष्ठवमेकादशकपालभग्नेवास्य शरीरन्निष्केणादितो मातृसंवारुणेनैवैनं वरुणपाशान्मुञ्चदि सारस्पतेन वाचं तथा यज्ञः सर्वा देवताभिष्टो देवताभिश्चैवेन यज्ञेन च भिषद्यदयदेता सद्भवति जीवत्तेवया वै रूपमेव श्रीकन्महिमानं व्यादश्यश्विनो प्राणोदीत्याः श्विनो वै देवालाम् भृदूताभ्यामेवस्मि भेषणम् करोतीन्द्रस्य प्राणोधीत्याहेन्द्रियमेवास्मिन् एतेन दधाति मित्रावरुणो प्राणोधीत्याः प्राणाभानावेवास्मिन्नेतेन दधाति विश्वेदा देवानां प्राणोत्याह वीर्यमेवास्मिन् दे एतेन तथा तिहृतस्य धानामृतस्य पन्थामित्याह यथा यजरेवेतत्पावमानेन स्वा स्तोमेनेत्याः प्राणमेवास्मिन्नैतेन तथा तिबृहन्धयो स्वास्त्वमेनेत्या होदयेवास्मिन् एतेन तथात्यग्ने स्वामात्रयेत्या त्मानमेवास्मिन्नेतेन दधाविजः पर्याहुर्यावन्तयेव त्रिरस्तेन विषज्यन्ते ब्रह्मणो हस्तमन् भारभ्यपर्याहुरे कथैव यजमानायुर्दधति यदेवतस्य तद्धिरण्यान् निष्पिभत्यायुर्वे घृतमृतम् हिरण्यममृता देवायुर्निष्पति शतमानं भवति शतायः पुरुष शतेन्द्रियायुष्येवेन्द्रिये समाय श्रे तावन्मानज्ञ स्यात् समुर्जाय मम ज्ञान युरेवच्चाः आयुदेवास्यन्वर्चो तथा च विश्वे देवा जलदश्चर्यथा धृत्याह जलदश्चिमेवेणम् करो यज्ञिरायुष्मादिगृहस्तम् गृह्णा चेदेवै देवा आयुष्पम् दस्तगेवा स्विन्नायुर्दध विगर्भमायुवेति जापतिर्वरुणायाश्वमनयच्छस्वान् देवतावाक्षपर्यतेर्यतं वारुणञ्च दुष्कपालमपश्च वेदवरुणभाषादमुच्यत वरुणो वा एतम् ग्रन्थां प्रतिग्रन्था यावदोऽश्वान् प्रतिगृह्णीया तावदो वारुणाञ्च दुष्कपालाय भागधेयेनोपधाव शान्मुञ्चति चतुष्कपाला पुनरे ो नीयञ्चलम् पुनरेत्य निर्ववेदप्सयो निर्वाश्वस्वामेवैनयो लिङ्गमयवितलेनकम् शान्तमुपतिष्ठते या वामिन्द्रावरुणाय दव्या धनोऽस्तये अमुंहतो मुञ्चदय्यावामिन्द्रावरुणा गहस्या रक्षस्य तेजस्याधनोऽस्तये अमुंहतो मुञ्चदै यो वा इन्द्रावरुणा वघ्नवोऽस्तामस्तम्ब वेधेना वयजे यो वामिन्द्रावरुणा द्विपात्सु पदुषुपात्सु गोष्ठे द्विवानस्पदुषस्तामस्तम्ब वेधेना वयज इन्द्रो न्द्रियेणावक्रामधिवरुणयेण वर्णभाषेण ग्रन्थादिगप्पात्मना गृहीत भवतिगप्पात्मना गृहीतस्यात्तस्मागेता मेन्द्रावरुणेन्दयस्यास्मिन्ेन्द्रियं दधादिवरुणयेन वर्णभाषान्मञ्चदिपयस्या भवतिपयोमेतस्मादपक्रामत्यथैतपात्मना गृहीतो भवतिपय एव यस्यायां पुराणायमवदधामन्वन्तमेव चतुर्धाव्यो हरिक्ष्मेव प्रतिष्ठति पुनस्तमो हरिणात्मैभेदङ्करोति यथा विभ्यन्निष्क्रन्दति तादृशेव तद्भ्यो वामिन्द्रावरुणावध्यमोत्रावस्त्रं वा वेदैना वेदैत्या हदृष्ट्या एव वरुणा त्याहैपदगप्रजापचव उपदीपनीगास्तास्मे वरुणपादान्मुञ्चति सपत्रप्रवन्दिकाव्येन्द्रम् वा विश्वतस्मयेन्द्रम् नरः तन्नः सोम विश्वतो रक्षाराजन्नखागतः या ते धामानि दिवि या पृथिव्याय्या पर्वतेष्वधेष्वप्सो हेमाविश्वे सुमनारेणन्त्रायन्पतिहव्याग्रभाय अग्नेरो मासवेरदासहो देवनदङ्गिरः पद्रा बभूवसुः एवमेतानि वीलोचनान्यश्च तोमसक्रतो अधस्तम् विमगम् सिन्धोगम् रभितस्तेन वद्यादग्नेशोमा पुमञ्चतम् रभीतान् अग्नेशोमा विमगम् सुमे सुनतम् वृषणाहवम् पथितो हर्यतम् भवतम् दासुरेमयः आन्यम् विमो मातरिष्माजपादामक्षादन्यम् परिश्येनो अग्रेः अग्नेशो मा ब्रह्मणा वा वृधानो रञ्ज्यायचक्रतुर्लोकम् हर्जे लो मा हरिषः प्रच्छिदस्य वेदगो हर्यसम् पुरुषुषा सुशर्माना स्वपाभिमथाभक्तम् यजमाना यजय्योः आद्याय स्वसन्तेः धनाम् मा गणपतयो हवामहे कविम् कवे पुत्रे स युज्जनेन स विषादजन्मनाथपुत्रेऽनुवाजम्भरदेधनादिभिः देवानायः पितरमादिवादलः श्रद्धामनाहविढा ब्रह्मणःपतिम् स्वतृपासजग्वदागणेन वनगुण्दोजफलिकगुण्डवेण बृहस्पतिरुया व्यसोदः कनिर्कद्वापचतेरुदाचरे मरुतो यद्धवो दिवो यावः शर्म पर्यमायाजविडभस्तु विष्मान् दादावसूनाम् पुरुहोतो हरिषण्बाहुरस्मातु देवोद्रविणम् तथा तु एतेर्यमन् बहवो देवजानात्पन्था नो राजम् दिव आचरन्ति एकन्दो देवमरिशर्मयच्छन्दने सिद्धिपदेशम् चतुष्पदे बुद्ध्रादग्रमङ्गिनोऽभिर्गृणानामिपर्वतश्च त्रिगुम्भिधान्यैरग्रोधागुम् कृत्रिमाहान्यैषाकुम् सोमस्य तामदीन्द्रश्चकार बुद्धादग्रेण विमायमानैर्वज्रेणान्यतृणम् नदीनाः पृथापथिभिधे सोमस्य तामधयेन्द्रश्चकार प्रयो यज्ञे विद्वागुम् अस्य बन्धुम् विश्वानि देवोजनिमा विभक्ति ब्रह्म ब्रह्मणवृद्यभारवध्याः नेतादृच्छा तयाभिप्रदस्थौ महान् महि अस्तभागद्विजातोद्यागम् सद्मपार्थिवम् चरजः चाभ्यग्रम् बृहस्पतिदेवधायस्य सम्राट उद्धाद्यो अग्रमभ्यत्योजथा बृहक्पतिमा विभाषन्ति देवाः भिनद्वनम् विपरोधने कणितत्सुखतपो जिगाय ओ ष्या इतरस्तेऽन्यतः दङ्गारक्षाकं त्रिविशालास्तेऽन्यवानामुदयदम् पङ्गो हितमकम् पन्तद्रक्षाकं दिरात्रेभिरभन्तान् सुब्धान् मृदानभिव्योक्षस्ते देवाभि दुर्यो वे नोऽयं म्रियते रक्षाकं द्विवा इमां भ्रन्ते दृते रक्षाकस्य वा मनुदयन् दयान्यं ब्रुवन्पराणामैयद ञया मदन्नस्थहा देवा सुरानन्ते दुराञ्जयित्वा रक्षाकस्य पादं ददानि रक्षाकस्य नितमकर्ते निगमन्तं देवान् पर्यविशन्ते देवा अग्नवनाथन्त प्रवदे पुरोनाथमष्टाकपादन्निरमवन्नग्नये विभाधपदे प्रतीकपदे यज्ञय प्रवदे निरवपनियान्येव पुरस्तान् रक्षाकस्या सन्तानितेन प्राणुदन्तय दग्नय विबाधवदेयान्येवाभितो रक्षाकस्या सन्तानि तेन व्यबाधन्तयदग्नय प्रतीगमतेयान्येवमस्याद्रक्षाकस्या सन्तानि तेनापानुदन्त देवान्मरासुरायो प्रादुर्यमान् स्यात् स्पर्धमानगेतयेत्यायजेतान्द्रये प्रवदे पुरोदासमष्टागमानन्द ग्नये प्रतीकवते यदग्नये प्रवदे गर्भवति गगेवास्माच्च यान् भ्रातुर्यस्तन्ते न प्रनुदते यदग्नये विभाधवते यगेवनेन सङ्कन्तेन विभाषते यज्ञय प्रतीगवते आदियहं विद्व्वा वेगय यज्ञज्ञतये देवासुरासं यत्ताः देवा अब्रवलयो मावे यावत्तमस्तमनु समारभामहायि त इन्द्रमब्रुभम् वै नावे यावत्तमो जित्त्वा मनु समारभामहायियोब्रवेत् तिस्रोमयिमास्तमवावेर्याव प्रेणेता सा तु न इन्द्रायागं होमु च पुरोडासमेकादगपालं निरवपन्दिन्द्रायवे मृथाय इन्द्रायै द्रियापदे जगलीन्द्रायागं होमुज निरवपन्नगं हगेवतेनामुच्यं दयलीन्द्रायमे मृधाय मृथगेवजेनापा जगरीन्द्रायै श्रियापदैन्द्रियमेवतेनात्मन्न दशत्रयस्पृगुं सप्तकपालं पुरोडाध निरवपन्त्रयस्पृगुं सद्वै देवता इन्द्र आत्मन समारम्भय तभोतां वावदेवा विजयमुत्तमामसुधैर्विजेन्द्रयो भ्रादुर्यवान् स्यात्सस्पर्धमाणयेतयेत्याय जयतेन्द्रायागम् होम जय निर्वपत्यगुंहत एवतेन उच्यते मृधावायन्नो युष्मात्समाने स्वण्यश्रेयाभ्या दुर्व्यो यदिन्द्राय मे वृथाय वृथ देवतेनावहते विदिन्द्रायेन्द्रियापधैन्द्रियमेव तेनात्मन् धत्ते त्रयश्रिगम् सत्कपालम् पुराणाश निर्वपदि त्रयत्रिगुम् सद्वेदेवधास्तादेव यजमान आत्मन्ननु समारम्भयते भो एतावानेताभिः जन्नामे तर्य एवम् विद्वानेतये त्याय स उत्तमामेव विहि न विजयते एवासुरासंयत्ता सुन्दरता यत्र गोबलमिन्द्रियम् येर्यम् ्रं याष्ठत्य मन्यन्तय धलानुवामित इदं भविष्यन्ते जितां व्यक्वयन्त विश्वकर्मन्निधि देवादाभेद्य सुरास्तान्यश्च नो भावत्तर च देवारमश्चेवानान्धामनामाधिविश्वमधिविश्वाय सर्वमधिसर्वायुध विभो देवासुना नामोजबलमिन्द्रियम् वेर्यम् प्रजान् पशो न वृञ्जलयद्गा यत्र वक्रम्याक्षत्तस्मा जयताङ्गा यत्रे चेष्टिमाहुस्संवत्सरो वेगा यत्रि संवत्सरो वेतर वक्रम्या नामो जबलमिन्द्रियम् वेर्यम् प्रजान् वचो न वृञ्जल तस्म जयताकम् त्यागजयसम्भर्गाय पुरोडालमट्टाकमानन्यसृतमासन्नषाभिमृजेतोदगेव बलमिन्द्रियम् वीर्यम् प्रयाम् प्रशोन् भ्रातुर्यस्य वङ्के भवत्यात्मनापरास्य भ्रातव्यो भवति प्रजापति प्रजा असृजता अस्मा सृष्टा स्वराजेरायन्ता यत्रावसन्ततो बृहस्पतिष्ठान् भवेत् धातुंस ब्रमे बृहस्पतिरणया प्रतिष्ठान्यधत्वा प्रजा उपावत्स्यन्ते गृहं प्राजष्ठत्र प्रजा उपावर्तन्तयः प्रजागामः स्यात् तस्मानेतम् प्राजावत्यङ्गाः मुदञ्चलन्य प्रजापतिमेव स्थ योपधावति स एवास्मै प्रजाम् प्रजनयति प्रजापतिः पशो न सृजनये सृष्टा परान् कायन्ते यत्रावसन्ततो गर्वन् पोषाकान् न वेतां सवेत् पूषाणया प्रतिष्ठानेत्यब्रवेत्तौ प्रातिष्ठत्ततो प्रजापतिं पशव उपावर्तन्तयः पशुगामस्यात्तस्मावेदगुम् सोमापौष्टङ्कान्मुदञ्च सोमापूषणामेव स्तैन येनोपधावधितामेवस्मै पशुन् प्रजनय स्वा वेदयतोधा पूषा पशूनां प्रजनयिता सोमयैवास्मै गहीन्द्रो पुष्ट्यादिषस्वनः इन्द्रो धत्ता गृहेषु नः रविताय सहस्रिगस्वनो गृहेषु दारणते आभूषागे त्वावशो धाता च दातुनो रयिमीशानो जगदस्पतिः नरः पूर्णेन भावनत् प्रष्टायोपिषभो विषासनो गृहेषु सहस्रेणायुतेन च येन देवा अमृतम् दीर्घग्निश्रमो दिव्येरयन्त नायस्पो शक्तमस्मभ्यङ्गवान् कुरुणिञ्जीवसायुमस्म अग्निर्ग्रहपतिस्वो विश्वपरिस्रविलासुमेधा स्वाहा अग्ने गृहपदे यत्ते धृत्वा भागस्ते न सहोराक्रममाणा यथेः श्रेष्ठ्याः रसो मायोजम् मोवर्धा भूयाजग्रस्ताः चित्रयाय चेत पुशुरामयं वै चित्राय द्वास्तां विश्वं भोतमधि प्रजाय जे नेयं चित्राय एवं विकश्चित्रया पशुरामो विजते प्रजया वशुधर्मे विजाय ने प्रैवाज्ञेयेन पापय निलेत सौम्येन दृढादिरेतगेव हितं कष्टा रूपानिकरादिकारस्पदौ मिशनं देव्यमेवास्मै मिशनं मध्यतौ जननायति मेवाल्ये भवति वा जेवाले पुष्प्यक्षणुमेवाष्टिमेव वाचमुपे यैलोत्तमा भवति तेनैव तन्विधुनकम् सप्तैतानि भवेगुं च भवन्ति सप्तग्राम्याः पशवः सप्तारण्याः सप्त चन्द्रागस्युपयस्याव्याचेताहुरे देवाः पुष्ट्यपदयस्त प्रजयाप्रित्यै मारुतमधितामोजोपान्श्येन मायिनम् मनोजपसम्भृषणुम् सुवृत्तिम् जगदश्विना परिधत्त स्वस्ति पुरो वातो वर्षन् जिन्मरावत्स्वाहा वातावद्वर्षन् नुग्ररावत्स्वाहानयन् वर्षकम् धीमरावृत्स्वाहाभस्फोर्जम् विद्युद्वर्षन् तेधरावत्साहात्रम् वर्षन् भोक्तिरावृत्स्वाहा बहुहायमवृषादिररावत्स्वाहाजमर्षन् निरादावत्स्वाहास्थोर्जम् विद्युद्वर्षन् भूतरावत्स्वाहान्दाश्यो ुष्मदे स्तमस्पदे रुन्दते सुखेनाः मित्रभृतः क्षत्रभृतस्वराष्ट्रा यमावता कृष्ण अश्वस्य सन्तानमधिके त्वोपनश्यामि देवावधव्या अग्ने द्वामधौर्या देवाः शर्मण्या मित्रावरुणार्यमन् देवाः सती गयोपानपादाशु हेमन् मुद्रादत्तृत्यामः आयन्दरः सुदानवोददाषदिवः कोशमदित्यमोः पर्जन्यास्त्रजन्तिरोदधि अनुधन्वनायन्ति वृष्टयः उदीर यथा मरुदस्तमुद्रतो वृष्टिम् वरिषयथा पुरेषिणः नमोदस्त्रा उपदस्सन्ति धेनवः शुभम् यातामनुरथा अवत्सदा वृष्टिम् दिव आभ्यस्तमुद्रम् प्रणा अब्दायप्रथमयामदमौद्रियम् उन्नम्भयम् भिन्धेयम् दिव्यम् नभः मुद्रा दिव्यस्तनो देहीशानामिषचारिण्यम् ये देवादिविभागाय अन्तरिक्षभागाय कृषिविभागाः इम यज्ञमपन्धुत इदम् क्षयक्रमाभि सन्तु इदम् क्षयक्रममविशन्तु मारुतमधिमो जगित कृष्णं वाधकृष्टम् परिधत्तमेतद्वे विष्टे लोपगुम्भलोप एव भूत्वा भर्जन्यं वर्षयितु नमयत मरुदस्येन वायुधमिति पश्चाद्वातम् प्रतिमेवति पुरोपातमेव जनयति वरुषस्यावरुद्धे वातधामानि जति ्रोवान्तरदिशा दिग्भगेव यदि कृष्णा करन्तर्वेदिनामद्यमानानागुंसेरुकानि परापतन्ते खर्गोरा अभवन्ते शागुम् न समोर्ध्वापदत्तानि करीराण्यभवन् सौम्यानि मे कलीराणि सौम्या खलु वा आहुद्धिवृष्टिञ्चामयत्करे भवन्ति सौम्य भक्त्यादिवृष्टिपरन्धे मधुदासंयोपाम्बा वेतवोषधे नागुम्भो यन्मध्वगेवोषधे परिणत्यथ मध्यगेवोषधे द्यो मृष्ट्यञ्जनयतिमान् दावासा विसंयोगिनामधे ये नैवैत्यसो यथा ब्रूजा तथा वेहे एवमेवनामधय गीनाच्यादयति ष्मा अश्वस्य सन्दानमधिकृष्णे कोपन्यामेत्याह वृषा वा अश्व वृषापर्जन्यः कृष्णय वृष नवे भोपावर्षज लोपेनैवेनघम् समर्थयति वर्षस्यावरुद्ध्य ्या देवा देवा सदीर विद्याबध्नादिदेवताभिदेवान् वहम् वृष्टिमिच्छ तावत् देवः द्रव्यङ्गदिलवर्ष स्वभूते हवन् नमवेदहो रात्रे मे मित्रावरुणावहोरात्राभ्याम् खलु वे पर्जन्या वर्ष विनष्टम् पाहि दिवा वा वर्षति मित्रावरुणागते येन स्माहो रात्राभ्याम् पर्जन्यं परिणय सौग्रदेधामच्छदय ृदकौ सप्तकपालकम्पालमज्ञर्वा इतो मरुतसृष्टान् नयन्ति यदा खलु वादित्याभ्य पर्यावर्तते धामच्छति वखलु वे भोक्त्वा वर्षत्रेता वे जैवदा एव स्वे नावतामेवास्ते पर्जन्यं वर्षयन् त्याहयथा वात्मै लोका प्रेता अभेष्टा भवन्ति सर्वाणि छन्दाकस्येतस्याविष्ट्या मनोच्चानेत्राहत्यष्टभोवा एतद्धेर्यम् यत् ककुदुष्णिहा जगत्ते यदुष्णिः ककुभावन्वाहतेनैव सर्वाणि छन्दाकस्य वरुन्धे गायत्रीवा एषा विदुष्णिहायानि यद्ध्यक्षराणि यदुष्पादयेव ते पदवोगसा पुरोणाशे पुरो ेवमेव तद्य दृत्यध्यक्षदा नियजगत्या परिदध्यादन्तम् यज्ञङ्गमय दृष्टभा परिदधादेन्द्रियम् वै वीर्यम् दृष्टगेन्द्रियमेव वीर्य यज्ञम् प्रतिष्ठापय दिनान्तमय तज्ञेत्रे देवादिनात्रे रथस्थेत्रवत्या परिदधाति सर्वभक्ताय सर्वोमा कामाय कामाय प्रयुज्यते सर्वेभ्यो हिना यज्ञप्रयुज्यते त्रे धादवीयेन यजेताभितरः सर्वो वा देशयज्ञोयत्रे धादवीयगुम् सर्वेणैवैनैयज्ञेनाभितरतिशृणत एवमेतयैव यजेताभिचर्यमाणः सर्वो वा देशयज्ञोय त्रे धादवीयगुम् सर्वेणैव यज्ञेन यजते नैनमभितरन् स्पृणुतगेतयैव यजेतकः त्रेण यक्षमाणः प्रजातमेवैन ददा ेव यजेत सहस्रेणोन्तम् वा ये च पशूनाम् गच्छति यः सहस्रेण यजते प्रजापदे खलु वे पशो न सृजदरागस्त्रैधा नवीर्यैवासृजनय एवम् विद्वागस्त्रैधा यस्मा देवयो ने प्रजापदे पशोन सृजद तस्मा देवैनान् सृजदवैणमुत्तरयम् सहस्रण्णमति यो यक्षे युक्त्वा न यजते त्रे धातवीयेन यजेत सर्वोमा वेषयज्ञो यत्रै धातवीयगं सर्वे नैव यज्ञेन यजतेन देवताभ्यावृष्टय द्वादशकपाल पुरोणाशो इमे लोकायेषां लोकानाभा्यामुत्तरमुत्तरो ज्ञायान् ोकायमो यो मध्यगे दद्वा अन्तरिक्षस्य रूपम् समर्थ्यै सर्वेणामभिगमयन्नवध्यक्षंकार हिरण्यन्धदाति चेजगेवा वरुन्धे धार्क्यन्तदातिपशो देवावरुन्धे धेनुन्दधातिषगेवा वरुन्धे साम् नो वा येशवर्णो यद्धिरण्यतिषाम् तार्तिमुक्तामदानाम् धेनुरतानेव सर्वानवर्णानवरुन्धे पुत्रेन्द्रं स्वाममाहरीन्द्र उपहवमये शतम् कृत्वा स्वाहेन्द्रुवर्धस्य तिषयावर्ध्वपदाविध्यति त्रमिषु मात्रम् विष्वङ्गवर्धरथ इमान् लोकानव नाच इमान् लोकानव नात्र वृत्तश्च वृत्त न्दम् पादिन्द्राभिभेदमि त्वष्टा तस्मै त्वष्टा अग्रमथिम् दत्त भो वेतमग्रहाद्यम् दन्नाथक्ष्मथवेत विश्वरम्या मे प्रहारस्ति वा इदम् मयि वीर्यं दत्ते प्रदास्यामिदपस्मे प्रायच्छत्र प्रत्यग्रन्था दभा मे जितव्यष्ट मे विप्रायच्छत्तव्यष्टप्रत्यग्रन्था विन्द्रगेन्द्रियण् क्षेत्रदीयमाहेत्य स्थितस्वाब्रमे प्रहारि मार्यन्तम् प्रदास्यामि प्रागच्छत्तत्प्रत्यगृह्णाद्माधाद्विष्टवे प्रागच्छत्तद्विष्ट प्रत्यगृह्णादस्मात् विन्द्र इन्द्रियण्त्प्य जिगद्भिमितते यमाभे तेन न्द्रो वज्रमुदयच्छदृष्टमस्थिदसोद्रमेन्मामेनाहमिदमस्मिद्यामि लिप् इत्यब्रवे सन्धान्धावमेव संधा प्रविशाीति जन्माविशे किम् इत्यब्रभे त्वामेवेन्धिोगाय त्वाम् प्रविशे किमित्यग्रहे संवृत्त प्राविशतुम् वेदत्रः क्षुत्खलु वै मनुष्यत्यभ्रातुर् योग एवम् वेदहन् दिक्षु सम्भातम् व्यङ्करस्मै प्रायच्छत्तत् प्रत्यगृह्णा कर्माधाविगद्व्यष्ट वेदि प्रायच्छत्त ष्टप्रत्यगन्धादस्मात् इन्द्रेन्द्रिगन्द्रिगत्य ना च विभगत्तमन्तरे वसन्तम्नाभो सभागेशोपोध्वजायते यद्राजन्यो यद्वारेशो नोजायत वृताङ्घ्यस्तकामयेतराजन्यवद्वजायत वृत्ताङ्घ्यस्त तस्माय तमैन्द्रामाय हस्पत्यन्दरवेदैन्द्रो वैराज्य ब्रह्मपरः पदर्ब्रह्मणे वैनन्दाम् नोपोम्भनान् मुञ्चति हृण्णा साक्षादेवैनन्दाम् नोपोम्भनान् मुञ्चति नमो नमो भवति जायमानोन्धाम् चतुर्षधा मेत्यग्रे भागम् देवेभ्रविदधा कायन् प्रचन्द्रमास्य न दि दीर्घमायुः यमादित्या पुंसुमाप्यायन्क्षितमक्षिदय पिबन्तिरात्या भुवनस्य गोपाः राज्याः तिषित्वमिन्द्राजिराज्योतोम् वृत्रहम् वृत्रहासि यत्रयन्ते श्रोत्यास्तज्जितन्ते दक्षिणतो धिहव्यः इन्द्राजया निरपराजया तामधिराजो राजसुराजयादि स्वाभिभो यातनाभिक्ते उपसद्यो नभस्यो यथा सत् अस्य देव प्रतिजयम् दिव पृथिव्याः पर्यन्तरिक्षात् महाविष्णगोवन्तस्वदिरमत्रोपेरणाय अभित्वाशूरणो नमो रुग्धायव धेनवः ईशानमस्तजगदस्तु भद्रशमीशानमिन्द्रतस्थुषः स्वामिद्भ्य हवामहे धातावाजस्य कारवः त्वाम् नृत्रेऽस्मिन्द्रसत्पदि नरस्ताम् काष्ठाः भोमे हृदस्योः दत्वा भज्रे सह प्रपुंसो ोममिन्द्रमन्द्रायन्ते विषावहरि यश्वाद्रिः स्वोतबाहुभ्याकम् श्र यतोधमाजमिन्द्रे सन्तु दिविवाजाः यत्रोदिषो नित्यम् जातवेदम् हस्तत्वा हरिसोरेव हन्ति देवसूर्या सोतिष्के संविलक्षणा देवा ऋतम् देवानामुदगादली कञ्चक्षन्मित्रस्य वरुणस्याग्नेः प्राद्यावापृथिवी अन्तरिक्षकुण्डाजगतस्तस्तुषश्च विश्वे देवादितावृतऋतुभिरहवनःस्कृतः युज्यम्पयः विश्वे देवाश्रुमदेवगुभवन् मे ये देवा देवा अन्तरिक्षेयमुपद्यपिष्ठा ये अपि उतभागि तत्रासुभ्यास्मिन् मर्हि मादय त्वाम् विश्वरूपो वै बाष्ट्रपुरोहितो देवानामासीत् स्वस्त्रीयोसुराणाम् तस्य त्रीणि शीर्षान्यासन् स्वमपानकम् सुरापानमन्नादनगुम् च प्रत्यक्षम् देवेभ्य भागमवदत् पराक्षमसुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागम् वदन्ति पर्यावर्तयत् स्वामपानमाजयम् सकलमिङ्गोनाथिना ब्रह्महत्याभक्तम् भूतान्यक्रोशन् ब्रह्म निृथिवेमुपासेस्ते ब्रह्महत्याये प्रतिगृहा परम् वृणे घातात् परा भविष्यन्ति मन्ये ततो मा भो भविति पुरात संवत्सरादपि नीत्यब्रभेत् तस्मात् पुरासम् वत्सरात् पृथिव्ये घातमपि नो हिवादय पृथग् ब्रह्म हत्यागै प्रत्यग्रन्थात् तत् स्वकृतमिरणमभव तस्मादाहिताग्निः श्रद्धादेव स्वकृतगिरणेनावस्य ब्रह्म हत्यायै स्तव नस्पदेऽनुपासेदस्ये ब्रह्म हत्याहे तृतीयम् प्रतिगृह्णी चेदिके ब्रुवन्वरम् वृणामहे वृक्णात् परा भविष्यन्तो मन्यामहे तदो मा परा भूमे या व्रश्चनाद्व भूयागम् समुच्चष्ठानित्यब्रभेत् तस्मादा व्रश्चनाद् वृक्षाणाम् भूयागम् समुच्चष्ठन् यो प्रत्यगृह्णाच्छासोऽ भवत्तस्माञ्जर्यासस्य नाश्च ब्रह्महत्यायेतस्य नाश्यम् काममन्यस्य तत्रेषपासीदस्यै ब्रह्महत्याये तृतीयम् प्रतिगृह्णेते रिता अभ्रुवन्वरम् प्रणाम हरित्य प्रजाम् विन्दामहेता विचलितो सम्भवा विन्दन्ते काममाभिजनिता सम्भवन्ति वारेवत्या सा तृतीयम् ब्रह्म हत्यागे प्रत्यगृह्णान् सा मनभद्वासा अभवत्तस्मान् मनभद्वास सा न संवद जन सहासी जनास्या अन्नमद्या ब्रह्म हत्या हे येषा वन्नम् प्रतिमुच्यास्ते यस्ततोजाय देतोभिषस्तो यामरण्येतस्यैस्तेनो यां पराजेण्डस्यै कृतमुख्यपकल्पो या स्नादितस्याप्सुमारुको याभ्यङ्कस्यै दुष्टर्माया प्रलिखदैतस्यै खलतिरपमारीयान्दस्यै का नो या धावस्यै श्यापधनयान ग्रन्थद्वेषस्यैकुमखेया गृहतिरस्यैकोयारब्जकम् सृजलितस्या उद्बन्ध गोया वर्णेन पिबलितस्या उन्मादु गोया धर्मेण विबलितस्यै विश्वत्रे भ्रदञ्च उपहवमै पुत्रीन्द्रगं स ममाहर तस्मिन् उपहवमये शिष्यप्रावर्तयत् स्वाहेन्द्रशत्रुर्वत्तद्वृत्रस्य वृत्तत्वं यद ब्रवेत् स्वाहेन्द्रशत्रुर्व जितस्मादस्येन्द्र शत्रुरभवत्स सम्भवन् लग्नेस विषु मात्रमिषु मात्रिष्प्रवर्धनवृणात् लोकान लोका वृणात् तद् वृत्रस्य वृत्तत्वं तस्मादिन्द्राभेत् स प्रजापतिमुपाधावक्षत्रुर्मे जने जितस्मै वद्रगुम् धिक्त्वा प्रायच्च जयतेन दे जहे जितेनाभ्यायद ्रूतामग्नेशो भौमाप्रहारामन्दस्मयति वा वै युवर्गस्थयित्यब्रवी नामैतमग्नेशोकादश प्रायच्छत्तावब्रूतामभि सन्दष्टो वै स्वदशक्नुभ ऐन्द्रहात्मनश्चेतदोरा एवंशेतलोरयाजन्मवेदनेन गंशेतलोरौ हदस्ताभ्यामेणमभ्यनयस्तस्मान् जञ्जभ्यमाना ऋग्वेदामोजरक्रामतां प्राणापानौ वायनन्तरजहिताम् प्राणा वेदक्षपाणकृतस्तस्मा जञ्जभ्यमानाब्रो यान् वेदक्षकृतो विधिप्राणापानादेवात्मन्धत्ते धर्ममायुवेदि निर्भोयवात् तज्भगम्नमासे निरव्रह्णन्ति वामाभास्यायान् प्याययन्तिरस्मात्त्वाघ्नेर्णमासे नोक्ष्यते पृथम्बते अमाभास्यायान्तच्छात् प्रग्भगम् ह्रमादाय पुनरभ्यायदते अब्रूतान् द्यावापृथिवीहाप्रहारावय ै अब्रोदाम्बरम् वृणावहै नक्षत्रविहिताहमधाने यथावब्रवे क्षेत्रविहिताहमिषेयन्तस्मान्नक्षत्रविहिताहो क्षेत्रविहिते यन् यन् वापृथिव्यारं वैजैरा व्यच्छदि प्रसोदयिन्द्र वृत्रमहन्ते देवा वृत्र महत्वाग्नेशा मावब्रुवनहव्यन्वा वहतमिता ्रूधामपजेजसौ वैत्योभित्रे वैत्यजास्त्य ब्रुवङ्कयितमक्षैतेति गौरित्य भ्रुवङ् गौरवापधर्वस्य मित्रमिति धा ब्रभेद्वरं वृणे मय्यवसतो भयेन भुनजाद्वायदि तद्गौरवत्तस्माग्विशतो भयेन भुञ्जतगेतद्वाग्नेयस्तेजो यतमेतत्सोमस्य गर्वजा येशोमयोस्ते जाग ेव भवति ब्रह्मवालिना वदन्ति किन्द्रे भक्त्यम् पौर्नमासमिति प्राजाभक्त्यमिति ब्रूगा तेनेन्द्रम् ज्येष्ठम् पुत्रम् निरमासायति तस्मात् ज्येष्ठम् पुत्रम् धनेन निरवसाय यन्ति